श्रीगुरुभ्यो नमः हरहि ॐ श्रीसाम्बसदाशिव अयुतनामावली अकारस्य ब्रह्मदेवता मृत्युञ्जयार्थे विनियोगः ॐ अखाराय नमः ॐ अखम्पिताय नमः ओम् अखाय नमः ॐ अखराय नमः ॐ अकृत्याय नमः ॐ अकारादिक्षकारान्तवर्णाब्जाय नमः ॐ अकृताय नमः ॐ अक्लेद्याय नमः ॐ अकृहाय नमः ॐ अकुण्ठाय नमः ॐ अखण्डसच्चिदानन्दविग्रहाय नमः ॐ अखिलापदामपहारिणे नमः ओम् अखिलदेवात्मने नमः ॐ अखण्ठभोगसम्पन्तलोघभाविदात्मने नमः ॐ अखिलोकैकजननाय नमः ॐ अखर्वकर्वमङ्गलाखिलकदम्बमञ्चरी सरित्प्रवागमाधुरि विजृम्भणामधुप्रधाय नमः ॐ अखण्डैकरसाय नमः ॐ अखण्डात्मने नमः ॐ अखिलेश्वराय नमः ॐ अखणितगुणगणाय नमः ॐ अग्निज्वालाय नमः ॐ अग्रवराय नमः ॐ अग्निधाय नमः ॐ अगतये नमः ॐ अगस्त्याय नमः ॐ अग्रगण्याय नमः ॐ अग्निनेत्राय नमः ॐ अग्नये नमः ॐ अग्निष्टोमद्विजाय नमः ॐ अघम्यगमनाय नमः अग्र्याय नमः ॐ अग्रेवय नमः ॐ अगण्याय नमः ॐ अग्रजाय नमः ॐ अगोचराय नमः ॐ अग्निवर्णमयाय नमः ॐ अग्निभुञ्जनिपेक्षणाय नमः म् अज्ञादित्यसहस्राभाय नमः ॐ अग्निवर्णविभूषणाय नमः ॐ अगम्याय नमः ॐ अगुणाय नमः ॐ अग्याय नमः ॐ अग्रदेसिकैश्वर्यवीर्यविजृम्भिणे नमः ॐ अग्रपुजे नमः ॐ अग्निगर्भाय नमः ॐ अगम्यगमनाय नमः ॐ अग्निमुघनेत्राय नमः ॐ अग्निरूपाय नमः ॐ अगनिष्ठोमार्त्विजाय नमः ॐ अघोरघोररूपाय नमः ॐ अगस्मराय नमः ॐ अघोराष्टकतत्त्वाय नमः ॐ अघोराय नमः ॐ अघोरात्मकहृदयाय नमः ॐ अघोरात्महदक्षिणवदनाय नमः ॐ अघोरात्मकण्ठाय नमः ॐ अघोरेश्वराय नमः ॐ अघोरात्मने नमः ॐ अगग्नाय नमः ॐ अचलोपमाय नमः ॐ अच्युदाय नमः ॐ अचलाचलाय नमः ॐ अचलाय नमः ॐ असञ्चलाय नमः ॐ अचि्याय नमः ॐ अचेतनाय नमः ॐ अचिन्तनीयाय नमः ॐ अचराय नमः ॐ अचिन्त्यशक्तये नमः ॐ अचिन्त्यदिवहमहिमरिताय नमः ॐ अच्युतानलसायकाय नमः ॐ अचलावासिने नमः ॐ अच्चदन्ताय नमः ॐ अजिताय नमः ॐ अजादशत्रे नमः ॐ अजडाय नमः ॐ अजराय नमः ॐ अजितागमभागवे नमः ॐ अजात्मने नमः ॐ अज्मकूटाय नमः ॐ अजलाय नमः ॐ अज्वालाय नमः ॐ अज्ञापकाय नमः ॐ अज्ञानाय नमः ॐ अज्ञानधिमिमिरवान्तभास्कराय नमः ॐ अज्ञाननाशकाय नमः ॐ अज्ञानापकाय नमः ॐ हास भिन्नपद्मजाण्डकोशसन्ततये नमः ॐ अणवे नमः ॐ अणिमातिगुणेशाय नमः ॐ अणोरणीयसे नमः ॐ अणिमादिगुणाकराय नमः ॐ अधन्त्रिताय नमः ॐ अतिदीप्ताय नमः ॐ अतिधूम्राय नमः ॐ अतिवृद्धाय नमः ॐ अतिथये नमः ॐ अत्रे नमः ॐ अतिघोराय नमः ॐ अतिवेघाय नमः ॐ अतीताय नमः ॐ अतिगुणाय नमः ॐ अतुल्याय नमः ॐ अद्यन्तजसे नमः ॐ अधिगाय नमः ॐ अतिधातुकाय नमः ॐ अतिमूर्तये नमः ॐ अतिदूरस्थाय नमः ॐ अतर्किताय नमः ॐ अतकर्याय नमः ॐ अतीन्द्रियगम्याय नमः ॐ अथकर्यमहिम्ने नमः ॐ अधिघोरसंसारमनोरगविषग्वराय नमः ॐ अद्य दूरस्थाय नमः ॐ अत्रिपुत्राय नमः ॐ अद्युग्राय नमः ॐ अतकर्यमहिमाधाराय नमः ॐ अतिकरुणास्पदाय नमः ॐ अतिस्वातन्त्रयसर्वस्वाय नमः ॐ अत्यन्तनिरुत्तराय नमः ॐ अतुलप्रभाय नमः ॐ अतिहृष्टाय नमः ॐ अद्भुतविग्रहाय नमः ॐ अद्वेतामृताय नमः ॐ अतीनाय नमः ॐ अधम्भाय नमः ॐ अतस्वाय नमः ॐ अदीतये नमः ॐ अद्रिजालाय नमः ॐ अद्रीणां प्रभवे नमः ॐ अद्भुताय नमः ॐ अद्वितीयाय नमः ॐ अद्वैताय नमः ॐ अद्रये नमः ॐ अद्व्यानन्दविज्ञानसुकथाय नमः ओम् अतुष्टाय नमः ॐ अदृप्ताय नमः ॐ अद्भुतविक्रमाय नमः ॐ अद्रीन्द्रतनया महाभाग्याय नमः ॐ अद्वयाय नमः ॐ अधब्रविभ्रमद्भुजङ्गमसद्विधिर्गमग्रमस्फुरत्करालपालहव्य वाग्ज्वलते नमः ॐ अदृश्याय नमः ॐ अदृश्याय नमः ॐ अदर्षणाय नमः ॐ अधर्वशीर्षे नमः ॐ अधिरोहराय नमः ॐ अध्यात्मयोगनिलयाय नमः ॐ अधिष्ठानाय नमः ॐ अधर्मशात्रवे नमः ॐ अथराय नमः ॐ अधोक्षजाय नमः ॐ अदृताय नमः ॐ अध्वरराजाय नमः ॐ अध्यात्मसुगताय नमः ॐ अधर्वलिङ्गाय नमः ॐ अधर्मशत्रुरूपाय नमः ॐ अधर्वरुग्यजुसामदुरङ्गाय नमः ॐ अधीराय नमः ॐ अधर्वणवेदमन्त्रजनकदक्षिणवदनाय नमः ॐ अध्येत्रे नमः ॐ अध्यापकाय नमः ॐ अधोक्षजात्मने नमः ॐ अध्यात्मप्रीतमानसाय नमः ॐ अध्वरभागफलप्रदाय नमः ॐ अधर्ममार्गनाशनाय नमः ॐ अधर्माय नमः ॐ अनेकात्मने नमः ॐ अनीहाय नमः ॐ अनौषधाय नमः ॐ अनलाय नमः ॐ अनुकारिणे नमः ॐ अनिन्दिताय नमः ॐ अनिलाय नमः ॐ अनन्तरूपाय नमः ॐ अनीश्वराय नमः ॐ अनघाय नमः ॐ अनन्ताय नमः ॐ अनादिमध्यनिधनाय नमः ॐ अनन्तदृष्टये नमः ॐ अनिर्देश्यवपुषे नमः ॐ अनिवारिताय नमः ॐ अनाधये नमः ॐ अनागन्ताय नमः ॐ अनुज्योतिषे नमः ॐ अनर्थनासनाय नमः ॐ अनिरुद्धाय नमः ॐ अनु य नमः ॐ अनीशाय नमः ॐ अनामयाय नमः ॐ अनपायिने नमः ॐ अनर्ताय नमः ॐ अनिर्विष्णाय नमः ॐ अनुत्तमाय नमः ॐ अनाकुलाय नमः ॐ अनन्तानामयाय नमः अनङ्घाय नमः ॐ अनाधाय नमः ॐ अनन्तचक्षुषे नमः ॐ अनेकद्रुतये नमः ॐ अनन्तेशाय नमः ॐ अनन्तासनसंस्थाय नमः ॐ अनन्तपाधाय नमः ॐ अनन्तलोचनाय नमः ॐ अनन्तभाघवे नमः ॐ अनन्तमूर्धे नमः ॐ अनन्तमूर्तये नमः ॐ अनागधलिङ्गाय नमः ॐ अन्नराजाय नमः ॐ अणवे नमः ॐ अनन्तविग्रहाय नमः ॐ अनन्यज्ञे नमः ॐ अनर्घ्याय नमः ॐ अनुग्राय नमः ॐ अनर्तग्ने नमः ॐ अनातुराय नमः ॐ अनन्तकल्याणपरिपूर्णमहोदयाय नमः ॐ अनसूयकाय नमः ॐ अन्नमयाय नमः ॐ अन्नदाय नमः ॐ अनिर्विण्णाश्रितजनाय नमः ॐ अनपायाय नमः ॐ अनावेश्याय नमः ॐ अनन्तवीर्याय नमः ॐ अनन्तमायिने नमः ॐ अनादिनिधनाय नमः ॐ अनन्तरूपिणे नमः अन्ननाम्पतये नमः ॐ अनन्तकोटिब्रह्माण्डनायकाय नमः ॐ अनुपमेशाय नमः ॐ अनित्यनित्यरूपाय नमः ॐ अनवध्याय नमः ॐ अनावृताय नमः ॐ अनाद्यधीताय नमः ॐ अनेकरत्नमाणिक्यसुधाकराय नमः ॐ अनेकोटिसीतांशुप्रकाशाय नमः ॐ अनन्तवेदवेदान्तसुवेद्याय नमः ओम् अनेककोटिब्रह्माण्ड आधारकाय नमः ॐ अनन्तानन्दबोधाम्बुनितिस्ताय नमः ॐ अनुपममहासौच्यपदस्थाय नमः ॐ अनित्यदेहविभ्रान्तिभञ्जगाय नमः ॐ अनिन्द्रियाय नमः ॐ अनन्तकरुणाय नमः ॐ अनित्यरूपाय नमः ॐ अनातिमूलहीताय नमः ॐ अनादिमलसंसाररोगवैद्याय नमः ॐ अनन्ततेजसे नमः ॐ अनन्तजगज्जन्मत्राणसंहारकारणाय नमः ॐ अनन्तयोगाय नमः ॐ अनादिमते नमः अनेकरूपाय नमः ॐ अनन्तशक्तये नमः ॐ अनादिनित्यमूर्तये नमः ॐ अनाहताय नमः ॐ अनाश्रिताय नमः ॐ अनित्यनित्यभासाय नमः रूपाय नमः ॐ अनुपमाय नमः ॐ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय नमः ॐ अनन्तकल्याणगुणशालिने नमः ॐ अनन्तकरुणाय नमः ॐ अनुघाय नमः ॐ अनादिभूतशक्तिशिखाय नमः ॐ अनन्तशक्त्यस्त्राय नमः ॐ अनलागमलोचनाय नमः ॐ अनेकाय नमः ॐ अनिलान्तकाय नमः ॐ अनामरूपाय नमः ॐ अनिष्ठाय नमः ॐ अनिष्टरूपाय नमः ॐ अनिष्टदायकाय नमः ॐ अनिष्टग्ने नमः ॐ अनामयाय नमः ॐ अनवरतकरुणाय नमः ॐ अनर्तरूपाय नमः ॐ अनन्तरूपधृते नमः ॐ अनन्तवरदाय नमः ॐ अनसूयाप्रियंवदाय नमः ॐ अनन्तविक्रमाय नमः ॐ अनन्तमहिम्ने नमः ॐ अनातनाथाय नमः ॐ अनादिशक्तिगाम्ने नमः ॐ अनन्तकोटिब्रह्माण्डनियामताय नमः ॐ अनङ्गमतापहारिणे नमः ॐ अनेकगुणस्वरूपाय नमः ॐ अनन्तकान्तिसम्पन्नाय नमः ॐ अनाकुलमङ्गलाय नमः ॐ अनुपमविग्रहाय नमः ॐ अनाधाराय नमः अनन्तानन्दभोदां अनन्तानन्दभोधाम्बुनिधये नमः ॐ अनर्घ्यफलदात्रे नमः ॐ अनातनाथात्मने नमः अनेकसर्मताय नमः ॐ अनिलमुज्ञानतवलयाय नमः ॐ अनाकाराय नमः ॐ अनञ्जनाय नमः ॐ अन्नानां पतये नमः ॐ अनुपमरूपाय नमः ॐ अनलरोचिषे नमः अनन्तगुणाभिरामाय नमः ॐ अनात्मने नमः ॐ अनातररक्षकाय नमः ॐ अनौपम्याय नमः ॐ अनिर्देश्याय नमः ॐ अनुहिष्ठाभिधानाय नमः ॐ अपराय नमः ॐ अप्सरोगणसेविताय नमः ॐ अपवर्गप्रधाय नमः ॐ अपरिच्छेद्याय नमः ॐ अपां निधये नमः ॐ अप्रतिमाकृतये नमः ॐ अपराजिताय नमः ॐ अपरार्तप्रभवे नमः ॐ अप्रमेयाय नमः ॐ अप्रलोभाय नमः ॐ अप्रतिमाय नमः ॐ अप्रमाणाय नमः ॐ अप्रियाय नमः ॐ अपूर्वाय नमः ॐ अप्सराणां पतये नमः ॐ अपहीताय नमः ॐ अप्रमिताय नमः अबवर्गधाय नमः ॐ अप्रतरणाय नमः ॐ अप्रमेयगुणाधाराय नमः ॐ अपरिग्रहाय नमः ॐ अप्रदृष्ट्याय नमः ॐ अपाराय नमः ओम् अपर्णकुचकस्तूरिरञ्जिताय नमः ॐ अप्राकृतमहादिव्यपुरस्थाय नमः ॐ अप्रतिमात्मने नमः ॐ अपवर्गदायिने नमः ॐ अपूर्वप्रथमाय नमः ॐ अपरिच्छिन्नाय नमः ॐ अपरिमेयाय नमः ओम् अपमृत्युविनाशकाय नमः ॐ अपस्मारशिरश्चेत्रे नमः ॐ अपराधहराय नमः ॐ अपर्णाकलत्राय नमः ॐ अपघतकुलुषप्रपञ्चाय नमः ॐ अपारपरमेश्वराय नमः ॐ अपर्णयाविहारिणे नमः ॐ अपरजाय नमः ॐ अप्रगल्भाय नमः ॐ अपराजितविक्रमाय नमः ॐ अभुथा नाम प्रतिमास्याय नमः ॐ अभिवाद्याय नमः ॐ अभिगम्याय नमः ॐ अभिरामाय नमः ॐ अभयाय नमः ॐ अभ्युदीर्णाय नमः ॐ अभयङ्कराय नमः ॐ अभीताय नमः ॐ अभयप्रदचरित्राय नमः ॐ अभूताय नमः ॐ अभीष्टप्रदाय नमः ॐ अभयधाय नमः ॐ अभिषेकसुन्दराय नमः ॐ अभूमये नमः ॐ अब्रकेशाय नमः ॐ अभे नमः ॐ अमराधीश्वराय नमः ॐ अमृतशिवाय नमः ॐ अमराय नमः ॐ अमुख्याय नमः ॐ अमि जिते नमः ॐ अमोघार्ताय नमः ॐ अमोघाय नमः ॐ अमृताय नमः ॐ अमृतभे नमः ॐ अमृताशनाय नमः ॐ अमृताङ्गाय नमः ॐ अमृतवपुषे नमः ॐ अमिताय नमः ॐ अमोघदण्टिने नमः ॐ अमोघविक्रमाय नमः ॐ अमराधिपाय नमः ॐ अमानाय नमः ॐ अमरार्चितचरणाय नमः ॐ अमर्षणाय नमः ॐ अमेढ्राय नमः ॐ अमेधाय नमः ॐ अमोघाय नमः ॐ अमिततेजसे नमः ॐ अमृताधीशाय नमः ॐ अमृताकराय नमः ॐ अमितप्रभाय नमः ॐ अमेयाय नमः ॐ अमृतेश्वररूपाय नमः ॐ अमूर्तये नमः ॐ अमूर्ताय नमः ॐ अमृतपाय नमः ॐ अमोघविग्रहाय नमः ॐ अमरजिते नमः ॐ अमृत्यवे नमः ॐ अमरेश्वराय नमः ॐ अमेयान्धकमर्दनाय नमः ॐ अमेयमानाय नमः ॐ अमोगमनोरथाय नमः ॐ अमोगमहलीलाय नमः ॐ अमोघमहाबलाय नमः अमलज्ञानतपटलचन्द्राय नमः ॐ अमितप्रभवाय नमः ॐ अमायाय नमः ॐ अमूर्तिसाध्यपश्चिमवदनाय नमः ॐ अमृतमयगङ्गाधराय नमः ॐ अमेयगुणाय नमः ॐ अमेयात्मने नमः ॐ अमृतायिताय नमः अमरेश्वरे ओंकाराय नमः ॐ अमलाय नमः ॐ अमन्धानन्दाब्धये नमः ॐ अमरातसमागमाय नमः ॐ अमलरूपिणे नमः ॐ अमरसार्वभौमाय नमः ॐ अयोनये नमः ॐ अयुग्मदृष्टये नमः ॐ अयुग्माक्षाय नमः ॐ अर्घचन्द्राग्निनेत्राय नमः ॐ अर्धनाय नमः ॐ अर्थाय नमः ॐ अर्तकराय नमः ॐ अर्यम्णे नमः ॐ अर्तितव्याय नमः ॐ अरिष्टमतनाय नमः ॐ अरोघाय नमः ॐ अरिन्तमाय नमः ॐ अर्धचन्द्रचूटाय नमः ॐ अरूपाय नमः ॐ अर्धनारीश्वराय नमः ॐ अर्च्यमेध्राय नमः ॐ अरिमर्धनाय नमः ॐ अर्धहाराय नमः ॐ अर्धमात्रारूपाय नमः ॐ अर्धकामाय नमः ॐ अर्घप्रभशरीराय नमः ॐ अरिग्ने नमः ॐ अरण्येसाय नमः ॐ अरिष्टनाशकाय नमः ॐ अरुणाय नमः ॐ अरिष्ठर्घदूराय नमः ॐ अरिसुधनाय नमः ॐ अर्तात्मने नमः ॐ अर्तिनाम्नितये नमः ॐ अरिष्ठर्गनाशकाय नमः ॐ अर्धनारीश्वरादिचतुर्मूर्तिप्रतिभादकान्तारवदनाय नमः ॐ अर्धनारीशुभांशघाय नमः ॐ अरातये नमः ॐ अरुण्कराय नमः ॐ अरिष्टनेमये नमः ॐ अर्हाय नमः ॐ अर्धादिकाय नमः ॐ अरिमतनाय नमः ॐ अरण्यानाम् पतये नमः ॐ अरतेभ्य नमः ॐ अर्धफुल्लेक्षणाय नमः ॐ अर्तिताधिगप्रदाय नमः ॐ अर्धहारार्धकेयूरस्वर्णकुण्डलकर्णिने नमः ॐ अर्धचन्दनलिप्ताय नमः ॐ अर्धश्रघनुलेपिने नमः ॐ अर्धस्रघनुलेपिने नमः ॐ अर्धपीतार्थपाण्डवे नमः ॐ अलगवे नमः ॐ अलोलाय नमः ॐ अलङ्करिष्वे नमः ॐ अलिङ्गिने नमः ॐ अलक्ष्याय नमः ॐ अलेक्यशक्तये नमः ॐ अलुप्तव्यशक्तये नमः ॐ अलन्ध्यशासनाय नमः ॐ अलिङ्गात्मने नमः ॐ अलक्षिताय नमः ॐ अलुप्तशक्तिनेत्राय नमः ओम् अलङ्कृताय नमः ॐ अलुप्तशक्तिधाम्ने नमः ॐ अव्ययाय नमः ॐ अवधानाय नमः ॐ अव्यक्ताय नमः ॐ अव्यग्राय नमः ॐ अविघ्नकारकाय नमः ॐ अव्यक्तलक्षणाय नमः ॐ अविक्रमाय नमः ओम् अवताराय नमः ॐ अवसाय नमः ॐ अवराय नमः ॐ अवरेशाय नमः ॐ अव्यक्तलिकाय नमः ॐ अव्यक्तरू नमः ॐ अवध्यामः ॐ अवस्वन्याय नमः ॐ अवरय नमः ॐ अवशान्त्याय नमः ॐ अवध्याय नमः ॐ अवधाय नमः ॐ अवर्याय नमः ॐ अविद्यालेसारहिताय नमः ॐ अवनिवृधे नमः ॐ अवधूताय नमः ॐ अविद्योपाधिरतनिर्गुणाय नमः ॐ अविनाशनेत्रे नमः अवलोकनायत्तजगत्कारणब्रह्मणे नमः ॐ अव्यक्ततमाय नमः ॐ अविद्यारये नमः ॐ अवर्णगुणाय नमः ॐ अवस्तारहिताय नमः ॐ अवस्तात्रयनिर्मुक्ताय नमः ॐ अवन्तिकायां महाकालाय नमः अविराजनिवासिने नमः ॐ अवन्ध्यफलदायिने नमः ॐ अश्वत्थाय नमः ॐ अश्वारूढाय नमः ॐ अशुभहराय नमः ॐ अश्रोत्र्याय नमः ॐ अशरीराय नमः ॐ अशेषदेवताराध्यपादुकाय नमः ॐ अशेषमुनीषाणाय नमः ॐ अशेषलोकनिवासिने नमः ॐ अशशपापहराय नमः ॐ अशेषजगधाधाराय नमः ॐ अशेषधर्मकामात्रमोषधाय नमः ॐ अश्वेभ्यो नमः ॐ अश्वपदिभ्यो नमः ॐ अशोकदुःखाय नमः ॐ अशोष्याय नमः ॐ अशुभमोचनाय नमः ॐ अष्टमूर्तये नमः ॐ अष्ट क्षेत्राष्टरूपाय नमः ॐ अष्टतत्त्वाय नमः ॐ अष्टतात्मस्वरूपाय नमः ॐ अष्टविधाय नमः ॐ अष्टाविंसत्यागमप्रतिपादकपञ्चवदनाय नमः ॐ अष्टमूर्ध्यात्मने नमः ॐ अष्टगुणैश्वर्याय नमः ॐ अष्टधलोपरिवेष्टितलिङ्गाय नमः ॐ अष्टदरिद्रविनाशनलिङ्गाय नमः ॐ अष्टसिद्धिदायकाय नमः ॐ अष्टाङ्गाय नमः ॐ अषाढाय नमः ॐ अश्रेहनाय नमः असमान्याय नमः ॐ असमृष्टाय नमः ॐ असङ्ख्येयाय नमः ॐ असूराणां पतये नमः ॐ असूरेन्द्राणां बन्धकाय नमः ॐ अश्रेखश्रेखरूपाय नमः असिरग्ने नमः ॐ अश्रगविग्रहाय नमः ॐ असिमद्भ्यो नमः ॐ अस्यद्भ्यो नमः ॐ अस्तिभूषाय नमः ॐ अस्मत्प्रभवे नमः ॐ अहश्वराय नमः ॐ अहोरात्रमनिन्दिताय नमः अह्ने नमः ॐ अहक्पतये नमः ॐ अहङ्काराय नमः ॐ अहोरार्त्रार्धमासमासानाम् प्रभवे नमः ॐ अहिंसाय नमः ॐ अहङ्कारलिङ्गाय नमः ॐ अहन्तात्मने नमः ॐ अहन्याय नमः ॐ अहन्यात्मने नमः ॐ अहेतुकाय नमः ॐ अहिर्बुद्ध्याय नमः ॐ अहङ्कारस्वरूपाय नमः ॐ अहं पदोर्बलक्षार्ताय नमः ॐ अहं पदलक्ष्याय नमः ॐ अहं पदोपहिदार्ताय नमः ॐ अहमर्थभूताय नमः ॐ अहिनोधारकोदण्डाय नमः ॐ अहन्ध्याय नमः ॐ अलिकुलभूषणाय नमः ॐ अक्षराय नमः ॐ अशाय नमः ॐ अक्षयाय नमः ॐ अक्षयगुणाय नमः ॐ अक्षुद्राय नमः ॐ अक्षोभ्यक्षोभणाय नमः ॐ अक्षताय नमः ॐ अक्षय्यरूपिणे नमः ॐ अक्षमालास्वरूपाय नमः ॐ अक्षयाय नमः ॐ अक्षराक्षरकूटस्थाय परमाय नमः ॐ अक्षरपदप्रधाय नमः ॐ अक्षमालाधराय नमः ॐ अक्षोभ्याय नमः ॐ अक्षभातसमर्चिताय नमः आकारस्य पितामहो देवता आकर्षणार्ते विनियोग नमः ॐ आकाशनिर्विकाराय नमः ॐ आकाशरूपाय नमः ॐ आकाशात्मने नमः ॐ आकाशिदिक्स्वरूपाय नमः ॐ आगमाय नमः ॐ आग्नेयाय नमः ॐ आगमार्थविचारपराय नमः ॐ आघ्राणाय नमः ॐ आगूर्णितनयनाय नमः ॐ आघण्डितकेयूराङ्गधाय नमः ॐ आगुष्टनैजप् प्रभावाय नमः ॐ आचार्याय नमः ॐ आशान्तसागराय नमः ॐ आचारुदेहाय नमः ॐ आशितनागाय नमः ॐ आशूर्निततमप्रसराय नमः ॐ आशूर्षाताज्ञानगहनाय नमः ॐ आच्छादितकृतिवसनाय नमः च्छिन्नरिपुमधाय नमः ॐ आक्षेत्रे नमः ॐ आचादनीकृतकुभाय नमः ॐ आजानुबाहवे नमः ॐ आजिस्थाय नमः ॐ आज्ञाधराय नमः ॐ आत्मत्रयशालिने नमः ॐ आत्मत्रयसंहर्त्रे नमः ॐ आत्मत्रयपालकाय नमः ॐ आत्मसूक्ष्माविज्ञानोदयाय नमः ॐ आत्मधिपतये नमः ॐ आत्ममन्त्राय नमः ॐ आत्मतन्त्राय नमः ॐ आत्मबोधाय नमः ॐ आचार्याय नमः ॐ आतताविने नमः ॐ आत्मानन्दाय नमः ॐ आत्मरूपिणे नमः ॐ आत्मने नमः ॐ आत्मसम्भवाय नमः ॐ आत्मनि संस्थिताय नमः ॐ आत्मयोनये नमः त्मज्योतिषे नमः ॐ आत्मभुवे आत्म नमः ॐ आत्रेयाय नमः ॐ आत्मत्रेयोपविष्टाय नमः ॐ आततायिने नमः ॐ आतप्याय नमः ॐ आत्मारामाय नमः ॐ आत्मजाय नमः त्मस्थाय नमः ॐ आत्मघाय नमः ॐ आत्मपश्याय नमः ॐ आत्मज्ञाय नमः ॐ आत्मलिङ्गाय नमः ॐ आत्मसम्बद्धसमर्थाय नमः ॐ आत्माद्रिसरोजभाजामधूराय नमः त्मत्रयनिर्मात्रे नमः ॐ आदिदेहाय नमः ॐ आदिदेवाय नमः ॐ आधये नमः ॐ आदिकराय नमः ॐ आदित्याय नमः ॐ आद्यन्तशून्याय नमः ॐ आदिमध्यान्तशून्याय नमः ॐ आद्याय नमः ॐ आदित्यतपसाधाराय नमः ॐ आदिमध्यान्तरहिददेहस्ताय नमः ॐ आदिमध्यान्तहीनस्वरूपाय नमः ॐ आद्यपाय नमः ॐ आदित्यवर्णाय नमः न्दनिर्मुक्ताय नमः ॐ आदित्यानां विष्णवे नमः ॐ आदिकाय नमः ॐ आदृताय नमः ॐ आद्यप्रियाय नमः ॐ आदित्यवक्त्राय नमः ॐ आदित्यनयनाय नमः आदित्यप्रतिभाय नमः ॐ आदिशक्तिस्वरूपाय नमः ॐ आधाराय नमः ॐ आधारस्थाय नमः ॐ आदिभक्त्याय नमः ॐ आनन्दामृताय नमः ॐ आनन्दाय नमः ॐ आनन्दमयाय नमः आनन्दपूरिताय नमः ॐ आनन्दभैरवाय नमः ॐ आनेनैव विन्यस्तविश्वतत्त्वसमुज्जयाय नमः ॐ आननशिरोवेष्टस्ताण्डकटाहोद्धृताय नमः ॐ आनीलच्छाय गन्तराय नमः आनन्दसन्दोहाय नमः ॐ आनन्दगुणाभिरामाय नमः ॐ आनीलच्छाय गन्धराशि सिम्ने नमः ॐ आनन्दरसेवधये नमः ॐ आनन्दभूमिवरधाय नमः पाटलजटाय नमः ॐ आपाण्डुविग्रहाय नमः ॐ आभरणाय नमः ॐ आमोदाय नमः ॐ आम्रपुष्पविभूषिताय नमः ॐ आम्रपुष्पप्रियप्राणाय नमः ॐ आम्रातकेश्वराय नमः ॐ आम्मो धते नमः ॐ आर्जितपापविनाशकाय नमः ॐ आर्द्रश्चर्माम्बरावृताय नमः रोहाय नमः ॐ आर्द्रचर्मधराय नमः ॐ आरण्यकाय नमः ॐ आर्द्रीय नमः ॐ आर्षाय नमः ॐ आर्दिग्नाय नमः ॐ आलोकाय नमः ॐ आलोध्याय नमः ॐ आवेदनीयाय नमः ॐ आवर्तमानेभ्यो नमः ॐ आव्यादिनीशाय नमः ॐ आव्यादिने नमः ॐ आश्रितरक्षकाय नमः ॐ आश्रमस्थाय नमः ॐ आश्रमाय नमः ॐ आश्रितवत्सलाय नमः ॐ आशुषेणाय नमः ॐ आश्रमाणां गृहस्थाय नमः ॐ आशुतोषाय नमः ॐ आश्रितामरपादपाय नमः ॐ आशाम्भराय नमः ॐ आषाढाय नमः ॐ आस्थापकाय नमः ॐ आहन्याय नमः ॐ इकारस्य मन्मथो देवता पुष्यर्थविनियोग नमः कितजाय नमः ॐ इच्छाज्ञानक्रियशक्तित्रयलोचनाय नमः ॐ इज्जापराय नमः ॐ इतिहासाय नमः ॐ इन्दुपतये नमः ॐ इन्दुकलादराय नमः ॐ इन्द्राधिप्रियाय नमः ॐ इन्द्रहर्त्रे नमः ॐ इन्द्रियलिङ्गाय नमः ॐ इन्द्रियपतये नमः ॐ इन्दुशेखराय नमः ॐ इन्द्राय नमः ॐ इन्द्रियाय नमः ॐ इन्दुमौलये नमः ॐ इन्द्रवाचकाय नमः ॐ इदाय नमः ॐ इण्ण्याय नमः ॐ इरिणाय नमः ॐ इलापुरजगद्वरेण्याय नमः ॐ इष्टाय नमः ॐ इष्टुमते नमः ॐ इष्टदाय नमः ॐ इष्ट इष्टज्ञाय नमः ॐ इष्टिभूषणाय नमः ॐ यीशवे नमः ॐ इष्टापूर्तप्रियाय नमः ॐ इष्टिज्ञाय नमः महा देवता महालक्ष्मीदेवतासम्पदर्थे विनियोग नमः ॐकाराय नमः ॐ ईड्याय नमः ॐ ईड्यात्मने नमः ॐ ईद्रियाय नमः ॐ ईशाय नमः ॐशान्याय नमः ॐ ईश्वराय नमः ॐ ईशानाय नमः ॐ ईश्वरगीताय नमः ॐ ईशानात्मघोर्ध्ववधनाय नमः ॐ ईशानमन्त्रात्मकमूर्थाधिकाय नमः ॐ ईश्वरवल्लभाय नमः ॐश्वरादिनाय नमः ॐश्वरचैतन्याय नमः ॐ ईशानात्मने नमः उकारस्य उमामहेश्वरो देवताफलधाने विनियोग नमः ॐ उकारस्य नमः ॐ उक्ताय नमः ॐ उग्ररूपाय नमः ॐ उक्राय नमः ॐ उक्रतेजसे नमः ॐ उग्ररूपधराय नमः ॐ उच्चैर्दोषाय नमः ॐ उच्चाय नमः ॐ उज्ज्वलाय नमः ॐ उज्जयन्यामहाकालाय नमः ॐ उत्पत्तिस्थितिलयालयाय नमः ॐ उत्पत्तिसंसारविनाशहेतवे नमः ॐ उद्वलौर्मिस्त्रिदाय नमः ॐ उत्तरस्मै नमः ॐ उत्तरणाय नमः ॐ उत्तारकाय नमः ॐ उत्तारकृतये नमः ॐ उत्कृष्टाय नमः ॐ उत्सङ्घाय नमः उत्तमोत्तमाय नमः ॐ उत्तमाय नमः ॐ उतोतैषवे नमः ॐ उत्पत्तिस्थितिसंहारकारणाय नमः ॐ उत्प्रोक्षितभूतवर्णाय नमः ॐ उदाररधिये नमः उदधीम्नाम्प्रभवे नमः ॐ उदीच्चाय नमः ॐ उदक्राय नमः ॐ उद्योगिने नमः ॐ उदारकीर्तये नमः ॐ उद्योदाय नमः ॐ उदाराय नमः ॐ उद्भिदे नमः ॐ उदगात्मने नमः ॐ उदात्याय नमः उन्मूलितसंसारविश्ववृक्षां कुरोधयाय नमः ॐ उन्मत्तवेषाय नमः ॐ उन्मत्ताय नमः ॐ उन्नतकीर्तये नमः ॐ उन्मादाय नमः ॐ उन्मत्तदेहाय नमः ॐ उपाश्रितसंरक्षणसंविधानपटीयसे नमः ॐ उपेन्द्राय नमः ॐ उद्यताय नमः ॐ उपदेशकराय नमः ॐ उपप्लवाय नमः ॐ उपकाराय नमः ॐ उपशान्ताय नमः ॐ उभादिरहिताय नमः ॐ उपद्रवहराय नमः ॐ उपमन्युमहामोघञ्जनाय नमः ॐ उपहिताय नमः ॐ उपजीव्याय नमः ॐ उपनृत्यप्रियाय नमः ॐ उमान् त्रिलाक्षापरिरक्तबाणये नमः उमादेहार्धधारिणे नमः ॐ उमामहेश्वराय नमः ॐ उमाकुशपदोरस्काय नमः ॐ उमेशाय नमः ॐ उमाभूषणतत्पराय नमः ॐ उमाकान्ताय नमः ॐ उमादिपाय नमः ॐ उमायापथये नमः ओम् उमाप्रियाय नमः ॐ उमा कोमलहस्ताब्जसम्भावितललाटकाय नमः ॐ उर्वर्याय नमः ॐ उरुषक्तये नमः ॐ उर्वीशाय नमः ॐ उरुःसूत्रिकालं कृताय नमः ॐ उरुप्रभावाय नमः ॐ उरगाय नमः ॐ उल्प्याय नमः ॐ उन्मुगधारिणे नमः ॐ ऊष्मपाय नमः ॐ ऊष्णीषिणे नमः ॐ उषध्वजाय नमः ॐ उषवाहाय नमः ॐ ऊकारस्य चन्द्रमादेवता उच्चाटनार्थे विनियोग नमः ऊकाराय नमः ॐय नमः ॐतसे नमः ॐलिङ्काय नमः ॐसायिने नमः ॐतस्तधिकराय नमः ॐसंहारणाय नमः ॐवाय नमः ओम् ऊर्ध्वस्ताय नमः ॐर्ध्वमेढ्राय नमः ॐर्ध्वमूलाय नमः ॐस्विने नमः ॐर्जिताय नमः ॐस्वलाय नमः ॐ गर्भाय नमः ॐ ऊरुवक्षसिखाय नमः ॐज्जलनरेतस्काय नमः ॐ ऊक्ष्मणे नमः ओम् ऊक्ष्मणये नमः ॐ ऊहाबोहविनिर्मुक्ताय नमः ॐकारस्य आतिर्देवताक्षोभणार्थे विनियोग नमः ॐ ऋकाराय नमः ॐकारावर्तभूषाढ्याय नमः ॐकुसहस्रावितेषणाय नमः ॐग्यजुःश्यामरूपिणे नमः ॐग्यजुश्यामवेधाय नमः ॐग्यजुश्यामाम्ने नमः ॐग्वेदाय नमः ॐग्वेतश्रुतिमौलिभूषणाय नमः ॐग्वेदमन्त्रजनक उत्तरवधनाय नमः ॐड्रमूर्तये नमः ॐताय नमः ॐतुमन्वन्तकल्पाय नमः ॐ ऋतूनां प्रभवे नमः ॐ रुदीतावर्तकेश्वराय नमः ॐषये नमः ॐषीणां वसिष्ठाय नमः ॐषाय नमः ॐ षाणां प्रभवे नमः ॐकारस्यधिेवतामोहार्ते विनियोग नमः रूकाराय नमः ॐुकविमोचनाय नमः ॐगिरिकन्यकाप्रियाय नमः ॐप्रदाय नमः ॐ लुकारस्य देवमाता देवताद्वेषणार्थे विनियोग नमः ॐ लुकाराय नमः ॐ लुकारप्रियाय नमः ॐ लूकारस्य कदृदेवतावुत्सारणे विनियोग नमः ॐ लूकाराय नमः ॐ लुस्वभावाय नमः ॐ लूकाराय नमः ॐ यकारस्य विष्णुदेवतास्त्रीवस्यार्धेविनियोग नमः ॐ यकाराय नमः ॐ यकनायकाय नमः ॐ यगज्योतिषे नमः ॐ यकातिने नमः ॐ यकाय नमः ॐ यकपाधाय नमः ॐ यकाक्षराय नमः ॐ यकादशविभेदाय नमः ॐ यकाक्षाय नमः ॐ यकरुद्राय नमः ॐ यकरूपाय नमः ॐ यकमूर्तये नमः ॐ यकवीराय नमः ॐ यकस्मा अपि विविधसक् त्यात्मना उभ यस्मै नमः ॐ यकस्मै नमः ॐ यकारगर्भाय नमः ॐ यकप्रियतराय नमः ॐ यकविराधिपरये नमः ॐ यकाकाराय नमः ॐ यतस्मै नमः ॐ यतत्प्रवाचकाय नमः ॐ ऐकारस्य हरो देवतापुरुषवस्यार्थे विनियोग नमः ऐक्यकारिणे नमः ॐ ऐन्द्रप्रियाय नमः ॐ ऐं नमः ॐ ऐं बीजपतत्पराय नमः ॐ ऐं सब्दपरायणाय नमः ॐ ओङ्कारस्य कुबेरो देवतालोकवश्यार्थे विनियोग नमः ॐ ऐं ह्रीं श्रीं जपस्तुताय नमः ॐ ऐं ह्रीं श्रीं बीजसाधकाय नमः काराय नमः ॐकाररूपाय नमः ॐकाररूपिणे नमः ॐकारनिलयाय नमः ॐकारबीावते नमः ॐकारसरोहंसाय नमः ॐकारजभसुप्रीताय नमः ॐकारदात्रे नमः ॐकारविष्णवे नमः ॐकारपदमध्यकाय नमः ॐकारमन्त्रवाक्याय नमः ॐकारद्वरदक्षिणात्मने नमः ॐकारवेधोपनिषदे नमः कारपदसौख्यधाय नमः ॐकारमूर्त्ये नमः ॐकारवेद्याय नमः ॐकारभूषणाय नमः ॐकारान्तरसंस्थिताय नमः ॐकारमन्त्रज्ञायिने नमः ॐकारबीजाय नमः ॐकारपीठनिलयाय नमः ॐकारनन्दनोद्यानकल्पकाय नमः ॐकारपीयूषरकमलाय नमः कारपद्मकान्तारकादम्भाय नमः ॐकार पञ्जरक्रीडावधिहंगाय नमः ॐकार गगनप्राजभास्कराय नमः ॐकारमुक्ताभरणतरलाय नमः कारविमलादर्शबिम्बिताय नमः ॐकारसूक्तिगमध्यमौलिकाय नमः ॐकारसम्पुटलसत्कर्पूराय नमः ॐकाराद्रिगुकारत्नप्रीदिपाय नमः ओङ्कार सर्वमाङ्गल्याभरणाय नमः ॐकारदिव्यकुसुमसौरभ्याट्याय नमः ॐकारभिण्डकर्जूरमाधुर्यप्रियाय नमः ॐकारकोकिलोदञ्जत्पन्माय नमः ॐकारचन्द्रिकाधार ॐकारवनितवक्त्रलावण्याय नमः ॐ काराख्यप्रभञ्जैकचैतन्याय नमः ॐकारचारो नगराधीश्वराय नमः ॐकारविपणिक्रय्यवरार्ताय नमः ॐकार बृहदारण्यमृगेन्द्राय नमः ॐकारनटनाकारनर्तकाय नमः ॐकारवटबीजस्तन्यक्रोधाय नमः ॐकारकल्पलतिकास्तभाय नमः ॐकारसौधवल्लभिकबोताय नमः ॐकारवनग्रीत्कुमाराय नमः ॐकारलीलाशैलेन्द्रबर्षणाय नमः ॐकारबिद्धिकादिव्यचित्रकाय नमः ॐकार गोपुरमणिकलशाय नमः ॐकारनगराधिपाय नमः ॐकारसौधनिलयाय नमः ॐकारपञ्चरसुकाय नमः ॐकारस्थानर्तकाय नमः ॐकारणवमौक्तिकाय नमः ॐकारैकपरायणाय नमः ॐकारपदत्वार्थाय नमः ॐकाराम् भोजचन्द्रमसे नमः ॐकारमण्डपावासाय नमः ॐकारां गणातिपिकाय नमः ॐकारपीठमध्यस्थाय नमः ॐकारार्थप्रकाशकाय नमः ॐकारसारसर्वश्वाय नमः ॐकारसूक्ष्मष्ठूबाधाय नमः ॐकारसूमष्ठुपधाय नमः ॐकारभानुकिरणाय नमः ॐकारकमलाकराय नमः ॐकारपेटकमणाय नमः ॐ ॐकारभरणोज्वलाय नमः ॐकारद्वरदीक्षिताय नमः ॐकारदीर्तिकाहंसाय नमः ॐकारजपतारकाय नमः ॐकारकुण्डसप्तार्चिषे नमः ॐकारवालकल्पकाय नमः ॐकारशारदम्भोदाय नमः ॐकारोदानबर्हिणाय नमः ॐकारगोकमिहिराय नमः ॐकारश्रीनिकेतनाय नमः ॐकारारामन्धाराय नमः ॐकार ब्रहन्नवित्तमाय नमः ॐकारमागन्तकाय नमः ॐकारादर्शबिम्बिताय नमः ओ ओङ्कारकन्ताङ्कुरकाय नमः ॐकारावदनोज्ज्वलाय नमः ॐकारारण्यहरिणाय नमः कारशिशेखराय नमः ॐकारगन्धरासिंहाय नमः ॐकारनाथवारिधये नमः ॐकाररूपाय नमः ॐकारवास्याय नमः ॐकारचिन्तकाय नमः ॐकारपूज्याय नमः ॐकारास्तिताय नमः ॐकारसुप्रभाय नमः ॐकारमूर्तये नमः